नारायणीयं दशकं 63 त्रि मल्टिमीटर्स् ददृशिरे किल तत्क्षणमक्षदस्तनि दजृम्बिदकम्पिददिक्तः भवदङ्गतुलाङ्गदा व्रजपदोपरि वारिधरास्त्वया विपुलतरकमिश्रा निपातैर्दिशि दिशि पशुपानां मण्डले दण्ड्यमाने कुपिदहरि कृतान्नः पाहि पाहीदि पाही तेषां वचनमजिदशृण्वन् मा बिभिदेत्यभाणीः कुलैह खलु गोत्रो दैवदं गोत्रशत्रोर्विहितमिह स रुन्ध्यात् को नु वः संशयोऽस्मिन् इति सहसिदवादी देवगोवर्धनाद्रिं त्वरितमुदमुमूलो मूलदो बालदोऽभ्यां तदनुगिरिवरस्य प्रोद्धृतस्यास्य तावत् कतिलमृदु देशे दूरदो वारितापि परिकरपरिमिश्रान्धेनुगोपा न धस्तादुपनि दध दधा हस्तपद्मेन शैलम् भवति विधृतशैले बालिकाभिर्वयस्यैरपि विहितविलासम् केलिलापादिलोले सविधमिलितधेनूरेकहस्तेन कण्डूयदि सदि पशुपालास्तोष मयिषन्द सर्वे अदिमहान् गिरिरेशदुवामके करसरोरुहितं शरदे चिरम् किमिदमद्भुतमद्रिबलन्विदित्वदवलोकिभिरा कथिगोपकैः अहः धार्ष्ट्यममुष्यवडोर्गिरिं व्यधितबाहुरसाववरोपयेत् इति हरित्वयि बद्ध विगर्हणो दिवससप्तकमुग्रमवर्षयत् अचलदि त्वयि देवपदात्पदम् गलितसर्वजले च खनोत्करे अपहृदे मरुदा मरुदाम्पदित्वदभिषङ्गिदधी समुपाद्रवद शममुपेयुषि वर्षभरे तदा पशुपधेऽनुकुले च विनिर्गते भुविविभो समुपाहिदभूधरः प्रमुदितैः पशुपैः परिरेभिषे धरणिमेव पुराधृतवानशिक्षिदिधरोद्धरणे तव कः श्रमः इति नुदस्त्रिदशैकमलापते गुरुपुरालयपालय सर्वत्र गोविन्दनाम सङ्कीर्तनम् गोविन्द गोविन्द